भागवतमहापुराणं चतुर्शे स्कन्ध एकोनत्रिंशोऽध्यायः नारद्वाच येनैवारभते कर्म तेनैवामुत्रतत्पुमान् भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयं शयानमिमंमुत्सृज्य स्वसन्तं पुरुषो यथा कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा ममैते मनसा यद्यन् सावहमिति ब्रुवन् पुणीयान्त पुमान् राधं कर्म येन पुनर्भवः यथानुमीयते चित्तम् उभयैरिन्द्रिये हितैः एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः नानुभूतं क्वचालेन देहेनादिष्टमश्रुतं कदाचिद् उपलभ्येते यद्रूपं याजुगात्मने तेनासिताजुसम्राजन् लिङ्गिनो देहसम्भवं सद्य स्वाननुभूतोऽर्थो न मनः प्रष्टुमर्हति मन एव मनुष्यश्च पूर्वरूपाणि शंसते धविष्य तस्य भद्रं ते तथैव न भविष्यतः अदृष्टम् अश्रुतं चात्र क्वचिन्मनसि दृश्यते यथा तथानुमन्तव्यं देशकालक्रियाश्रयं सर्वे क्रमानुरोधेन मनसिन्द्रियगुचृङ्गोचराः आयान्ति विर्गसो यान्ति सर्वे समनतो जनाः सद्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिने तमश्चन्द्रमसि वेदमुपरम् उपर जावभाषते नाहं ममेति भावोऽयं पुरुषे व्यवधीयते यावद्बुद्धिमनूर्छार्थगुणव्योहो जनादिमान् शक्तिर्मूर्च्छोपतापेषु प्राणाज्ञानविघाततः नेहतेऽहमिति ज्ञानं मृत्युप्रज्वालयोरपि गर्भे बाल्ये पोस्कल्यादेकादशविधं तदा लिङ्गं न दृश्यते यो न कुंशं चन्द्रमशो यथा अर्थे च विद्यमानेऽपि संस्कृतेन निवर्तते ध्यायतो विषयां नस्य स्वप्नेन यथा एवं पञ्चविधं लिङ्गं त्रिविद्ोडसविस्तृतम् एष चैतन्यां युक्तो जीव इत्यभिधीयते अनेन पुरुषो देहानुपादत्ते विमुञ्चते हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति यथा त्रिणजलोकेयं नाम् नापयात्यपयाति च न तजेन्म्रियमाणोऽपि प्राग्देहाविमतिं जनः यावदन्यं न विन्देत व्यवधानेन कर्मणां मन एव मनुष्येन्द्रभूतानां भवभावनं यदाक्षे सरितान्ध्यायं कर्माण्याचून्नुते सके सति कर्मण्य विद्यायां बन्धकर्मण्यनात्मनः अतस्तदन्तवादार्थं भज सर्वात्मना हरिं पंस्यस्तदात्मकं विश्वंसित्योत्पत्यव्ययाजतः नैत्री उवाच भागवत मुख्यो भगवान्नारदो हंसयोर्गतिं प्रदर्शं ततो गमत् प्राचीनबर्षिराजर्षे प्रजा आदिश्य पुत्रा नगमन्तपसे कपिलाश्रवम् तत्रैकाग्रमणा वीरो चरणां गोविन्दचरणाम्बुजम् विमुक्तसङ्गोऽनुभवन् भक्त्या तत्साम्यतामगात् एतदध्यात्मपारोक्षम् गीतम् देवर्षिणानघ यश्राव्येज्य श्रृणिया सलिङ्गेन विमुच्यते एतन्मुकुन्द यशसा भुवनं पुनातं देवरसिवर्यमुखनिश्रितम् आत्मशोचं यकृतमानमधिकं गच्छति पारमेशं नास्मिन् भवे भ्रमति मुग्धसमस्तबन्ध अध्यात्मपारोक्षमिदं मयाधिगतम् अद्भूतम् एवं श्रियाश्रम पुंस छिन्नो मुद्र च ते श्रीमद्भागुते महापुराणे परञ्चां चयितायां चतुस्संस्कन्धे विदुर्मैत्रे संवादे प्राचीनवर्षिणारसंवादो नामैकं को